श्रीमद्भागवत्महापुराणं पञ्चमः स्कन्धः प्रथमोऽध्यायः श्रीशुकुवाच इति समभिहितो महाभागवतो भगवतः त्रिभुवनं गुरोः अनुशासुनमात्मनोल्लगुतयावनत शिरोधरो बाढमिति सबहूमानमुवाह भगवानपि मनुना यथावदूपकल्पितापचितिः प्रियव्रता नारदयोः अविषमम् अभिं समीक्षमार्जयोरात्मसमुस्थानमवाङ्मनसं क्षयमव्यवहृतं तवर्तयन्न गम्मत मनुरपि परेणैवं प्रतिसन्धितमनोरथ सुरशिवराणो मतेनात्मजम् अखिलं धरामण्डलस्थितिगुप्तय आस्थाप्य स्वयमितिं विषमविषयं विषयजलाशयाशाया उपरराम इति हवावसज्जगति पतिरीश्वरेक्षयाधिनिवेशिता कर्माधिकारोऽखिलजगद्बन्ध्वंसन् रानुभावस्य भगवत आदिपुरुषां पुरुषस्याङ्क्तियुगलां नवरतध्यानानुभावेन परिरन्धितकषायाशयो वदतोऽपि नानवर्धरो महतां महीतलम् अनुशासा अथ च दुहितरं प्रजापते विश्वकर्मण उपये मे बर्हिस्मतिं नाम तस्यामुहभाव आत्म आत्मजानात्मसमानशीलगुणकर्मरूपविर्योद्धारां दश भावयाम्बभूवकन्यां च यवीयसी मुर्यस्वतिं नाम आग्निध्रेद्मजिहुयज्ञबाहुमहावीरहिरण्यैरेतो गतपृष्ठशवनमेधा तिथिवितिहोत्र कवय इति सर्व एवाग्निनामानः एतेषां कविर्महावीरः सबल इति त्रय आसन्नोऽध्वरेतसस्तम् आत्मविद्यायाम् अर्भभावादारभ्य कृतपरिचयाः प्रारमहंसमेवाश्रमं वजनं तस्मिन् वा उपशमशीलाः परमर्शय सकलजीवनिकाया वासस्य भगवतो वासुदेवस्य धीतानां तरणभूतस्य श्रीमच्चरणारविन्दां निरतस्मरणां विगलितपरमभक्तियोगानुभावेन परिभावितान्तर्हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्मभूते प्रत्यगात्मन्येवात्मनस्तादात्म्यं न विशेषेण समीयु अन्यस्यामपि जायां त्रयः पुत्रा आसन्नुत्तमस्तामसो रैवत इति मन्वन्तराधिपतयः एवमुपसमायलेशो स्वतलये स्वथ जगतिपतिर्जगतीव बुधादश परिवत्सराणाम् अव्याहतां खिलपुरुषकारसारं संहृतर्दोर्दण्ड धर्व जुगलापीडितमौर्वीगुणस्तनितं विरमितं धर्मप्रतिपक्षो बर्हिष्मत्याश्चानुदिनं मेधमानप्रमोद प्रसन्नयोषेण्यमीडाप्रमुषीतं हासावल्लोकरुचिरक्ष्मेल्यादिभिः पराभूय मान् विवेक इवा नवबुध्यमान इवां हामना बुभुजे यावदं भासयति स्वरगिरिमनुपरिक्रमान् यावदं न भासयति स्वरगिरिमनुपरिक्रामन् भगवानादित्यो वसुधातलधर्मेणैव तपद्यर्धेनावच्छान्दयति तदा हि भगवदुपासनोपञ्चिताति पुरसप्रभाव तदनभिनन्दनं समजवेन रथेन ज्योतिर्मयेन रजनीमपि दिनं करिष्यामीति सप्त कृत्वस्तरणे मनुपर्यक्रामद्वितीय इवपतङ्गः येवा उह तद्रथं चरणेमी कृतपरीखातास्ते शब्दसिन्धव आसं यदेव कृता सप्तभुवो द्वीपा जम्बोप्लक्ष्यं साल्मलिकुशक्रौञ्चशाकपुष्करसंज्ञास्तेषां परिमाणं पूर्वस्मात् पूर्वस्मादुत्तरद्वरो यथासङ्ख्यं द्विगुणमालेन बहिशमन्तत उपक्लिप्ताः चारोदेक्षूरसोदसुरोदधृतो दक्षिरोदधिं मण्डोदशुद्धोदाः सप्त जलधयः सप्तदीपरिखा इवाभ्यन्तरद्वीपसमाना एकैकस्येन यथानुपूर्वं सप्तस्वपि बर्हिद्वीपेषु पृथक् परित उपकल्पितास्तेषु जन्द्वादिषु बर्हिस्मति प्रतिरनुव्रतानात्मजानाग्निर्ध्रेद्मं जिहुयज्ञबाहु हिरण्यरेतो धृतपृष्ठमेधातिथिः नेतिहोत्रसंज्ञान्यथासङ्ख्येन एकैकस्मिन्नेकमेवाधिपतिं विदधे द्वितरं चोर्जस्वतिं नामोऽसनसे प्राजच्छद्यस्यामासीदेवयानीं का नाम काव्यसुताम् नैवंविध पुरुषकार उरुक्रमस्य पुंसां तन्दङ्घ्रिरजसादितन् षड्गुणानां चित्रं वधूरविगत सकृता दधीत स एवमपरिमितबलपराक्रम एकदा तु देवरसि चरणालुशयनालों पतीत गुणविसर्गसंसर्गेणानुविन्द निवात्मानं मन्यमान आत्मनिर्वेद इदमाह अहो असाध्वनुष्ठितं यदभिनिवेशितोऽहमिन्द्रियैः अविद्याम् अविद्या अचितं विषमविषयान्धकूपे तदलम् अलम् अमुश्यां दलिताया विनोदमृगम् मां दिग्धिगतिं गर्ह्यां चकार परदेवताप्रसादाधिगतात्मां प्रत्यवववववर्षे नाडो प्रवृद्धेभ्यः पुत्रेभ्य इमां यथादायं विभज्य भुक्तभोगां च महिषीं मृतकमिवथ महाविभूतिमपहाय स्वयं निहित निर्वेदोऽस्थितिगृहीत हरिविहारानुभावो भगवतो नारदस्य पदवीं पुनरेवानुससार तस्य ह एते श्लोकाः प्रियव्रतकृतं कर्मको नु कुर्याद्विनेश्वरं यो निमिनिम्नैरकरोच्छायां घृतं घृनशब्दवारिधीन भूसंस्थानं कृतं येन सरिद्गिरीवनादिभिः सेवा च भूतनिर्वृत्त्यै द्वीपे द्वीपे विभागश लोमं दिव्यं मानुसं च महित्वं कर्मयोगजं यश्चक्रे निर्यौपम्यं पुरुषानुजनप्रिय च श्रीमद्भागवते महाप्राणिप्रंसां जयितायां पञ्चमस्कन्धे प्रियव्रतविजये प्रथमोऽध्यायः